व्यासकृतनवग्रहस्तोत्रम् नवग्रहस्तोत्रम् सङ्काशम् कश्यपेयम् महाद्युतिम् तमोरिम् सर्वपापघ्नम् प्रणतोऽस्मि दिवाकरम् दधि शङ्खतुषाराभम् क्षीरोदार्णवसम्भवम् नमामि शशिनम् धरणीगर्भसम्भूतम् विद्युत्कान्तिसमप्रभम् कुमारं शक्तिहस्तम् मङ्गलम् प्रणमम् यहम् प्रियङ्गुकलिकाश्यामम् प्रतिमं बुधम् सौम्यं सौम्यगुणोपेतं तम् बुधम् प्रणमम् यहम् देवानां चर्षीणां च गुरुं काञ्चनसन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं हिमकुन्दमृणालाभम् दैत्यानां परमं गुरुम् सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमं यहम् नीलाञ्जनसमाभासं रविपुत्रं यमग्रजम् छायामार्ताण्डसम्भूतं तं न अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनं सिंहिकागर्भसम्भूतं तं राहुं प्रणमं यहं तारकाग्रहमस्तकम् रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमं यहम् इति व्यासमुखोद्गीतं यः पठेत् सुसमाहितः दिवा वा यदिवा रात्रौ विघ्नशान्तिर्भविष्यति नरनारीनृपाणां च भवेद् द्विस्वप्ननाशनम् ऐश्वर्यमतुलम् तेषाम् आरोग्यम् पुष्टिवर्धनम् ग्रहनक्षत्रजाः पीडाः तस्कराग्निसमुद्भवाः ताः सर्वाः यान्ति व्यासो ब्रूतेन संशय